थाष्टात्रिंशः सर्गः ततः सगविशार्दूलस्तेन वाक्येन तोषितः सीतामुवाच तच्छ्रुत्वा वाक्यम् वाक्यविशारदः युक्तरूपम् त्वया देवि भाषितम् शुभदर्शने सदृशम् स्त्री स्वभावस्य साध्वीनाम् विनयस्य च स्त्रीत्वान्नत्वम् समर्थासि सागरम् व्यतिवर्तितुम् मामधिष्ठाय विस्तीर्णम् शतयोजनमायतम् द्वितीयम् कारणं यच्च ब्रवीषि विनयान्विते रामादन्यस्य नार्हामि संसर्गमिति जानकी एतत्ते देवि सदृशम् पत्न्यास्तस्य महात्मनः काह्यन्यात्वामृते देवि ब्रूयाद्वचनमीदृशम् श्रोष्यते चैव काकुत्स्थः सर्वम् निरवशेषतः चेष्टितम् यत्त्वया देवि भाषितम् च ममाग्रतः कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महो दधेः सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् इच्छामि त्वाम् समानेतुमद्यैव रघुनन्दिना गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् यदि नोत्सहते यातुम् मया सार्धमनिन्दिते अभिज्ञानम् प्रयच्छ त्वम् जानीयाद्राघवो हि यत् एवमुक्ता हनुमता सीता सुरसुतोपमा बाष्पप्रग्रथिताक्षरम् इदम् श्रेष्ठमभिज्ञानम् ब्रूयास्त्वम् तु शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे तापसाश्रमवासिन्याः प्राज्यमूलफलोदके तस्मिन्सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः तस्योपवनखण्डेषु नानापुष्पसुगन्धिषु विहृत्यसलिले क्लिन्नो ममाङ्के समुपाविशः ततो माम् समायुक्तो वायसः महम् लोष्टमुद्यम्य दारयं स्म वायसम् दारयम् स परिलीयते न चाप्युपारमन्माम् साद्भक्षार्थी बलिभोजनः उत्कर्षन्त्याम् च रशनाम् क्रुद्धायाम् मयि पक्षिणे च वसने ततो दृष्टा त्वया ह्यहम् क्रुद्धा संलज्जिता तदा भक्ष्यक्रुद्धेन काकेन दारिता त्वामुपागता ततश्रान्ताहमुत्सङ्गमासीनस्य तवाविषम् क्रुध्यन्तीव प्रहृष्टेन त्वयाहम् परिसान्त्विता बाष्पूर्णमुखी मन्दम् चक्षुषी परिमार्जति लक्षिताहम् त्वया नाथ लक्षिता वायसेन प्रकोपिता परिश्रमाच्च सुप्ताहे राघवाङ्केऽस्म्यहम् चिरम् पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः स तत्र पुनरेवाथ वायसः समुपागमत् ततः सुप्तः समुत्थिताम् वायसः सहसागम्य विददारस्तनान्तरे पुनः पुनरथोत्पत्य विददार समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः समां दृष्ट्वा महाबाहुर्वितुन्नाम् स्तनयोस्तदा आशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत केनते तेनागनासोरुवीक्षतम् वै स्तनान्तरम् कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना वीक्षमानस्ततस्तं वै वायसंसमवैक्षत नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखम् स्थितम् पुत्रः किल सशक्रस्य वायसः पतताम्बरः धरान्तरम् गतः शीघ्रम् पवनस्य गतौ समः ततस्तस्मिन्महाबाहुः कोपसंवर्तिते क्षणः वायसे कृतवान् क्रूराम् मतिम् सदर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयेत् स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् सतम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति ततस्तु वायसम् दर्भः सोम्बरेणु जगामः अनुसृष्टस्तदाकाको जगाम विविधाम् गतिम् त्राणकाम इमम् लोकम् सपित्राच च परित्यक्तः सर्वैश्च परमर्षिभिः त्रीन् लोकान् सम्परिक्रम्य तमेव शरणम् गतः सतम् निपतितम् भूमौ शरण्यः शरणागतम् कृपया पर्यपालयत् परिद्योनम् विवर्णम् च पतमानम् तमब्रवीत् मोघमस्त्रम् न शक्यम् तु ब्राह्मम् कर्तुम् तदुच्यता ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् दत्त्वा तु दक्षिणम् नेत्रम् प्राणेभ्यः परिरक्षितः स रामाय नमस्कृत्वा राज्ञे दशरथाय च विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् मत्कृते काकमात्रेऽपि का ब्रह्मास्त्रम् समुदीरितम् कस्माद्योमाहरत्वत्तः क्षमसेतम् महीपते स कुरुष्व महोत्साहाम् कृपाम् मयि नरर्षभा त्वया नाथवती नाथ ह्यनाथ इव दृश्यते आदृशम् स्यम् परो धर्मस्त्वत्त एव मया श्रुतम् जानामि त्वाम् महावीर्यम् महोत्साहम् महाबलम् अपारवारमक्षोऽभ्यम् गाम्भीर्यात्सागरोपमम् भर्तारं ससमुद्राया समुद्राया धरण्या वासवोपमम् एवमस्त्रविदाम् श्रेष्ठो बलवान् सत्त्ववानपि किमर्थमस्त्रम् रक्षस्सु न योजयसि राघवा न नागानापि गन्धर्वा रामस्य समरे वेगम् शक्ताः प्रतिसमीहितुम् तस्य वीर्यवतः कच्चिद्यस्ति मयि किमर्थम् न शरैस्तीक्ष्णैः क्षयम् नयति राक्षसान् भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः कस्य हेतोर्न माम् वीरः परित्रातिमहाबलः यदि तौ पुरुषव्याघ्रौ वायविन्द्रसमतेजसौ सुराणामपि दुर्धर्षौ किमर्थम् मामुपेक्षतः ममैव दुष्कृतम् किञ्चिन्महदस्ति न संशयः समर्थावपि तौयम् माम् नावेक्षेते परम् तपौ वैदेह्यावचनम् श्रुत्वा करुणम् साश्रुभाषितम् अथा ब्रवीन्महातेजा हनुमान् हरियूथपः त्वच्छोकविमुखो रामो देवि सत्येन ते शपे रामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते कथञ्चिद्भवति दृष्टा न इमं इमम् मुहूर्तम् दुःखानामन्तम् द्रक्ष्यसि शोभने तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ त्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः हत्वा च समरक्रूरम् रावणम् सह बान्धवम् राघवस्त्वाम् विशालाक्षि स्वाम् पुरीम् प्रति लक्ष्मणश्च महाबलः सुग्रीवो वापि तेजस्वी हरयो वा समागताः इत्युक्तवती तस्मिंश्च सीता पुनरथा ब्रवीत् कौसल्यालोकभर्तारम् सुषुवेयम् मनस्विनी तम् ममार्थे सुखम् पृच्छ शिरसा चाभिवादया स्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः ऐश्वर्यम् च विशालायाम् पृथिव्यामपि दुर्लभम् पितरम् मातरम् चैव सम्मान्याभिप्रसाद्य च अनुप्रव्रजितो रामम् सुमित्रा सुप्रजाः आनुकूल्येन धर्मात्मात्यक्त्वा त्यक्त्वा सुखमनुत्तमम् अनुगच्छति काकुत्स्थम् भ्रातरम् पालयन् वने सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः पितृवद्वर्तते रामे मातृवन्माम् समाचरत् क्रियमाणाम् तदा वीरो न तु माम् वेदलक्ष्मणः वृद्धोपसेवि लक्ष्मीवाञ्छक्तो न बहुभाषिता राजपुत्रप्रियश्रेष्ठः सदृश भ्राता रामस्य लक्ष्मणः नियुक्तो धुर्यस्याम् तु तामुद्वहति वीर्यवान् यम् दृष्ट्वा राघवो नैव सममार्थाय कुशलम् भक्तव्यो वचनान् मम मृदुर्नित्यम् शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः यथाहि वा नरश्रेष्ठदुःखक्षयकरो भवेत् त्वमस्मिन् कार्यनिर्वाहे प्रमाणम् हरियूथप राघवस्त्वत्समारम्भान् मयि यत्नपरो भवेत् इदम् ब्रूयाश्च मेनाथम् शूरम् रामम् पुनः पुनः जीवितम् धारयिष्यामि मासं दशरथात्मज ऊर्ध्वम् मासान्न जीवेयं सत्येनाहम् ब्रवीमिते रावणेनोपरुद्धाम् माम् निकृत्या पापकर्मणा त्रातुमर्हसि वीरत्वम् पातालादिव कौशिकीम् ततो वस्त्रगतं मुक्त्वा दिव्यम् चूडामणिम् शुभम् प्रदेयो राघवायेति सीता हनुमते ददौ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् अङ्गुल्यायोजयामास न ह्यस्य प्राभवद्भुजः मणिरत्नम् कपिवरः प्रतिगृह्याभिवाद्य च सीताम् प्रदक्षिणम् कृत्वा प्रणतः पार्श्वतः स्थितः हर्षेण महता युक्तः सीतादर्शनजेन सह हृदयेन गतो रामम् लक्ष्मणम् च सलक्षणम् मणिवरमुपगृह्यतम् महार्घम् जनकण्पात्मजयाधृतम् प्रभावात् गिरिवर पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमम् प्रपेदे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टात्रिंशः